हरि ओम् श्री, नमह, श्री, श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चतुरशीति तमः सर्गः विभीषणेन श्रीरामं प्रति इन्द्रजितो माया रहस्यं वर्णयित्वा सीता जीवतीति विश्वासस्य दृढीकरणं लक्ष्पणं च निकुम्भिलां गमयितुं प्रार्थनम् रामम् आश्वास माने तु लक्ष्मणे भ्रातृवत्सले निक्षिप्य गुल्मान् स्वस्थाने तत्र गच्छद्विभीषणः नानाप्रहरणै वीरै चतुर्भि अभिसंवृतः नीलाञ्जनचयाकारे मातङ्गैरिवयूथपै सोभिगम्य महात्मानं राघवं चोकलालसं। वानराञ्चापि ददुषे बाष्पर्याकुलेक्षणाम् राघवम् च महात्मानम् इक्ष्वाकुकुलनन्दनम् ददर्शे मोहमापन्नम् लक्ष्मणश्चाङ्गमाश्रितम् प्रीडितम् शोकसन्तप्तम् दृष्ट्वा रामम् विभीषणः अन्तर्दुःखेन दीनात्मा किम् एतदिति सुब्रवीत् विभीषण मुखं दृष्ट्वा सुग्रीवं ताशवान राम् वाच मन्दार्थम् इदं बाष्परिपृतः हता इन्द्र जिता सीता इति श्रुत्वैव राघवः हनुमयद्वचनात् सोम्य ततो मोहम् उपाश्रितः कथयन्तं तु सौमित्रिम् सन्निवार्य विभीषणः पुष्कलार्थमिदम् वाक्यम् विसञ्जम् रामम् अब्रवीत् मनुजेन्द्रार्थरूपेण यदुक्तास्तां हनुमतः तद्युक्तम् अहं मन्ये अभिप्रायं तु जानामि रावणस्य दुरात्मनः सीताम् प्रति महाभावो न घातं करिष्यति याचमानयतु बहुशो मया हि तचिकीर्षुण वैदेहि न च तत्कृतवान् वचः नैव साम्नादानेन न भेदेन कुतो युधः सा द्रष्टुम् अपि शक्येत नैव चान्येन केनचित् वानरान् मोहयित्वा तु प्रतियातः स राक्षसः मायामयीं महाबाहुः तां विद्धि जनकात्मजां चैत्यं निकुम्भिराम् अद्य प्राप्य होमं करिष्यति हुत्वापयातो हि देवैरपि सवासवै दुराधर्षो भवत्येष संग्रामे रावणात्मजः तेन मोहयता नूनम् एषा माया प्रयोजिता विघ्नम् मन्विच्छता तत्र वानराणाम् पराक्रमे स्वसैन्यास्तत्र गच्छामो यावत् तन्नः समाप्यते च जैनम् नरशार्दूल मिथ्या सन्तापमागतम् सीदते हि बलम् सर्वम् दृष्ट्वा ताम् शोककर्षितम् इह त्वम् स्वस्थहृदय तिष्ठ सत्त्व समुच्छ्रितः लक्ष्मणं प्रेषयास्माभिः स्वसैन्यानुकर्षिभिः एशते ते नरझादूलो रावणीं निश्चरी त्याजयिष्यति ततो वद्यो भविष्यति तस्यैते निश्चिता तीक्ष्णा पत्री पत्रा वाजिनः पतत्रेणा इवा सोम्या शरा पास्यन्ति शोणितम् तत् सन्देश राक्षसस्य विनाशाय वज्रम् वज्रधरो यथा मनुजवरणकाल विप्रकर्षो रिपुनिधनम् प्रति यच्चमोदकर्तुम् तमतिसृजरि द्विजरिपो मथने यथा महेन्द्र कर्मा इतराक्षै भो भवत्य दुष्य समरे सुरासुरे युजुसता यु तेन समाप्तकर्मणा भवेत् सुराणामपि संशयोमहम् इत्याख्ये श्रीमद् रामायणे वाल्मीकियाधिकार्य युद्धकाण्डे चतुरशीतितमः सर्गः श्री सीताचंद्रारणमस्तु